अयम् स यस्य नोभिरताौ ज्येष्ठेभिरजो भानुभर्विषूनाम् परिजे परिवेदो विभावा यो भानभर्विभावा विभाजज्ञे भर्विता वाजस्रः आयो योज सख्यासखिभ्योपतो अद्यो न सप्तैः ईशेजो विश्वस्य देवदी ते दीशेः दे विश्वायुरुषो ज्योष्ठ आ यस्मिन् मना हरिं जग्नावरिष्टरथस्कब्नादिश्रूषैः सूषेभिर्वृतो जुषाणो अर्कैर्देवाङ्गच्छारुवत्वारियादि न्द्रोः दासजुह्वाय शिरसंविश्वराजीघर्तिदेवान् नमोसामिन्द्रङ्गरे जयमानमग्नम् येर्भिर्नवोभिराक्रेणुध्वम् आयन्विप्रासो मतिभिर्घृणन्ति जातवेदसम् जिह्वाम् सहाराम् संयस्मिन् विश्वापशो नियज्ञर्वाजेना स्वासप्तीयैः अस्मे भूतीन्द्रवादतमार्वादीना अग्नाग्रेणुष्वा अध्याज्ञे वह्नाय नद्या सद्यो जज्ञानो हव्यो बभूथे देवासो अलकेत माजन्नधा वर्धन्तः प्रतमासभूमाः दिवो अग्ने पृथिम् यजथा यदेव स देवैरोनुष्या दे न गुरुभिर्देवसंश्रैः इमाग्ने मतयस्त्वभ्यम् जाता गोभिरस्त्वैरभिक्रीणन्ति राधाः यदा एव अनभोगमानड्वसो दधा नो मतिभिः सुजाता अग्निम् मन्ये वितरमग्निमाभिमग्निम् रातरंसदमित्सम् अग्नेरनेकम् बृहतः स वर्यम् दिविशुक्रम् जतम् सूर्यस्य सेधा अग्नेधियो अस्मे सनुत्रीर्यम् राज सेदमा इत्याहोता रवासरोहितः स्व पुरक्षोद्युभिरस्फाहभिर्वा ममस्तु द्युभिर्हिलम् मित्रमेव प्रयोगम् रत्नमृत्युजवध्वरस्य जालम् बाहुभ्यामग्निमायभोजनन्तविक्षुहोतारम्यसाधयन्त स्वयम यजस्व दिवि देवदेवान् किन्ते पाकः कृणवदप्रचेताः यथा याच ऋतुभिर्देवदेवानेवा याजस्वधन्वम् सुजात भगवा नो अग्ने वितोत गोपा भवा वयस्कृतुतनो वयोधाः प्रास्वाजनः सुमहो हव्यतादिन्द्रास्वधनस्तन्वोप्रयुच्छन् प्रचेतुरा विहताजात्यग्निरारोदयशीवृषभोरोरवीति न्दाम्बुभवामुदानलपामुपस्थे महिरोगाबद्ध मोदगर्भोरुडभ्रगुद्मा नः श्रेवा वत्समी माम् परावी स देवताद्युध्यतानि गृह्वान् ऋक्षजे ऋमो जीगाति आयो ध्वन्यध्वरे अन्नाः अस्य पद्मन्नरु क्षीरश्च बुद्ध्नातस्य योनौ धन्वो जोषो हिवसो अग्रमे ऋतुरम् जनयो नभवो विभावाः सप्तदधिके पदानि जनयन् मित्रम् धन्वे श्चक्षुर्महृतस्य गोपा भुवो वरुणायतायवे भुवो अपान्नपाहज्जातवेदो भुवो दूतो यश्च हव्यम् विदोषः भुवो यज्ञस्य रच्च नेता यत्र निजद्भ्यः स च धानम् दिरे स्वर्णाम् निर्वामग्ने च गृहे हव जवाहम् अस्य त्रितः क्रतो न भव्येऽहम् दीतिम् पिदुरे वै परस्य स दस्यमानः पित्रोरुपस्थेजामिभ्रूवानायूधानि वेति स्वपित्र्याण्यायूधानि विद्वानिन्द्रे विद श्रीर्षणम् सत्तरस्मिन् जघन्वान् बाष्पस्य जिह्निस्सृ भूरिन्द्रबुधिलक्षम् समो यो वाभिनः सत्त्वधर्मण्यमानम् बाष्पस्य जिद्विस्वरूपस्य गोनावाचत्राणस्त्रीणि शीर्षापरावोधिष्ठामा यो भुमस्तान भूजेदधातन महेरणाय चक्षसे योगः शिवदमोरसस्तस्य भाजय देहनाः उषरीरेव मातराः तस्मारङ्गमामभोजस्य क्षयायजिन्वाथ आपो जनजा जनः शन्नो देवीरविष्णय आपो भवन्तु पीतये शयोरविश्रवन्तु नः ईशा नापार्याणां शयन्तीस्तर्षणीना अपोजामिभेषजम् जा वप्सु मे सोमोऽ अब्रवीदम् तर्विश्वानिभेषजा अग्निम् च विश्वसम्भुवम् आपणीतभेषजम् वरोधम् तन्वे हे मम ज्योच्चसूर्यम् दृशे इलमापप्रवाहत यत्कि दुरितम् मयि यद्वाहमाभिरुद्रोहयद्वासेव उदापो अद्यान्वाचारिषं वसे न समागस्महि वयस्वानग्नागाहितम् वासं श्रेजवच्च सा सहस्रुषीस्तपसोदिभानक्तम् च ससृषीः वरेण्यक्रतोरह मा देवीरवसेतुमे ओ जेत्सखायम् सख्यामावृत्याम् शिरः पुरोचिरर्नवम् जगन्वान् विदुर्नपाहतमाचधीतमेधाधिक्षमित्रम् जी जानः न ते सखाः सङ्ख्यम् वष्ट्येतत्सलक्ष्माय द्विषुरूपा भवादि महासूत्रासो असूलस्य वीरादिवो धर्तारापलिख्यन् वसन्दि घाते अमृता स एतदेकस्य नित्यज संवर्त्यस्युप्पतिस्तन्वा अमावीविश्याः च गृमागद्ध नूनमृतावदन्तो अन्वेतं रमेम प्सद्या चयोषादानो नाभिः परमम् जामितम् नौ गर्भेण नौ जनिता दम्पाती गर्भे वस्तुष्टा सुविता विश्वरूपः वीरस्य प्रवीरम् जव्रता निवेदराभस्य प्रवोचते ेत्रस्य परो न स्य धामकुब्रवाहनोऽभीच्यामृ यमस्या मायन्याङ्कामागन् समाने यो नो सहसेयाय जायेव परते तन्नम् यच्छामि चिद्बृहे परत्येव चक्रा न तिष्ठन्ति न निमिषन्त्येते दे देवानाम् स्वसजिहये चरन्ति अन्ये न मदाहनो जाहितो यन्ते न विग्रेहलत्येव चक्रार स्वाहभिर्दशस्येत्सूर्ये शव्यामि सुजासबन्धूर्यमस्य विग्रहादजामि आघाता गच्छानुत्तरायुगानि यत्र जामय कृणवन्नजामि उपबर्भिय बाहुमन्यमिच्छस्वसुभे पतिम्वत् किम्भाता सज्जनाथम् भवादि कि स्वसायन्निर्वेदन्निगच्छात् कामाभूता बह्वे एतद्र वापि तन्वा मे तन्वा हम्सम्प्रिवृद्धि ूते तन्वा तन्वा हंसम्पभृच्छाम् पापमाहुर्यसारम् निगच्छात् अन्येनात्रमुदः कल्पय स्वन ते भ्रातासुभगेव ह्येतत् बतोबदासियमनैव देवनो हृदयम् चा विदाम अन्या किल त्वाम् कक्षेव युक्तम् परिष्मजा अन्यमूर्वत्वम् जन्यभृत्वाम् वरिष्वच देलिभूजेव वृक्षम् तस्य भात्वम् मनयिच्छा स वातमाधा गण्व संवितम् सुभद्रा विषा विष्णे दुहेतो दिवः पराम् दिवः को विश्वम् धरे समरु नो यथा धिया स यज्ञियो यजतु ये यज्ञिया घृतूमे न मद्गम् धर्वीरप्याजयोष नानदस्य नाथे परी पातु मे मनाः युष्कस्य मध्ये अधीतन्निधातु नो भ्राता नो ल्येष्टप्रथमो विवोचति सोऽन्नु भद्राक्षुमधीयशस्वत्युषाभू वासमनभे स्वर्वती यदि मुसन्तमुसतामनक्रतो मध्यम् भोदारम् विदथा यदी जानन् अध्यन्तप्सम् विध्वम् विलक्षणम् विराभरति शिलस्येनो अध्वरे यदी विशो वृणते दस्ममार्या अग्निम्भोरा रमधरीरराजत सदाशिरण्वो यव सेवपुष्य देवोत्राभिरग्देवनो न स्वध्वरः विप्रस्य वाजच्च समानमुख्याम् वाजम् स स वाम् वोपयासि भूरिभिः जालाभगमियक्षति हर्यतो हृत्तयिष्यति विभक्तिवह्निस्व पश्यते मखस्तविष्यते असूरो वेवदेव यस्ते अग्ने सुमतिम् मत्तो अक्षः सहसत्सूनो अधिसप्रशन्ते इषम् दधा नो महवानो अस्यैरासद्युमाद्यून् यदग्नेषा सुमी देवी देवेषु यजता जय तत्र नरत्रा जयद्विभजादि स्वधावो भागम् नो अत्र वसुमन्दम् वीतात् श्रुधीनो अग्ने ददाने सदस्थेः युक्ष्वारसामृतस्यत्र भित्रम् आनो महरोदीदेवपुत्रे मा किर्देवा नाम भूरिहस्याः वा रक्षा वा प्रथमे ऋतेराभिश्रावे भवतः सत्यवाचा देवोजन्मत्रान्यजथाय कृता प्रत्यम् समसञ्जन् देवो देवान् परिभो कृते न महानो हव्यम् रथमस्ति ौमवेदः स्वमिधाभाजीगो मन्द्रोः दानित्यो भाचार्य स्वादेवम् यदी गो रतो जातासो धारयन्त पूर्वी विश्वे देवादेयजर्गर्ध्वेयजेनी दिव्यम् घृतम् वा च्छामि वाम् वग्धायावो घृतस्नो ज्यावा भूमिः शृणुतम् रोदसी मे अहा यद्यावोऽ सूर्यमजन्मध्वा नोरत्र वितरासि किं स्यो राजा जगृहे क्रादिभ्रतम् समाको विवेद यत्रश्चिद्धिष्माजुरानो देवान् श्लोको न जातामपि वाजो अस्ति दुर्मन्द्वत्रामृतस्य नाम सलक्ष्मा यद्भिषुरूपाभवादि मनवादे सुमन्वद्भेदविश्वन् यस्मिन् देवाविदशे मातयन् दे ोतिरदधर्मास्यान्वरिोतनिम् च रतो अजस्रा यस्मिन् देवामन्मानि सञ्चरम् च वीच्ये येन वयमस्य विद्म वितो रामत्रादिरणागान् सविता देवो वरूनाय वोचते अग्ने सलने से युक्ष्वामृतस्वद्वित्रम् आनोदीदेव पुत्रे वा यद्देवानामूलिकस्याम्बध्ये मसूरे शृण्वन्तविश्वे अमृतस्य पुत्रा ये धामानि दिव्याणि तस्थुः यता माने यदै शम् प्रवाम्भरन् मानुषादे वयम् ताः आधीदथम् स्वमो लोकम् निधाने स्वासस्ते भवदमिन्दवेन पञ्चपदानि लुपोहन्वरोहम् च दुष्पथीमन्वे निन अक्षरेण प्रतीविव येदामृतस्य ना सम्पूर्णामि देवेभ्यक्रमावृणीत वृजम् प्रजायैकमृतम् नावृणीत मृगस्वयम् यज्यमाजन्मदर्शिम् प्रियान्य सप्तक्षरम् पित्रे पुत्रा सोऽप्यजीवतमृतम् उभेयदस्योभयस्य राजत उभे यदेते उभयस्य पुष्यतः ्रमतो महेररो बहुभ्यः पन्थामनपस्पसानम् वैवस्वतम् सङ्गमानम् जनानाम् शम् राजानम् हविषादुवस्य विवेदनैषार्वव्यो जनपभर्तबाहु यत्रा न पूर्वे वितरपदेव निज्ञानाप स्वाह मार्गस्वर्गर्वाभिधानः यांश्च देवापृथर्ये च देवान् स्वान्ये स्वधयान्ये मादन्ति र्यमा वैरूपैरिहमादयस्वस्वन्दम्भुवेस्मिन् अङ्गीरसो न पितरो न भद्वा सर्वाणो भृगवः सोम्यासा एषाम् वयम् सोमदौ यज्ञियानामपि भद्रेदौ मनसे स्याम रेर्यत्रा नः पूर्वे पितरत्वरेयोगाराया सुधयामदम् तायोम् वश्वासिवरोणम् च देवम् ङ्गच्छस्व पितृभिः यमेनेषामूर्तेन परमे व्योमन् हित्वाया पद्यम् पुनरस्वमेभि सङ्गच्छस्व तन्वाः सुवर्चाः अमेतमेतपि च सर्पदातोऽस्मा एतम् वितरो लोकमक्रन् अहोभिरद्भिरक्तभिर्व्याक्तम् यमो ददात्यवसानस्मै अनिद्रवसानमेलौ स्वानौ चतुरक्षौ सभरौ साधुना तथा अथापे हि मेन समातम् मतन्ति स्वानौ यमरक्षितारौ चतुरक्षौ पतिरक्षे विलक्षासौ राजन् स्वस्तिला वरीदेहि राजम् देहि च धेहि सुतृपाबुदम् फलौ यमस्य दूतौ च रतो जनाम् ननुमभ्यम् नृषजय सूर्याय पुनद्दातावसु मध्येह भद्राम् यमाय सोम् सुलदयमाय जगताहभिः जलङ्घयज्ञो गच्छतः यमाय घृतवद्धोधप्रच तिष्ठद स नो देवेश्वाय मद्दीर्घमाय प्रजीवसे यमाय मधूमत्तम्राज्ञे हव्यम् दुहोदन इदन्नमरिणेभ्यः पूर्वजेभ्यः पूर्वेभ्यः प्रतिगृद्भ्यः ृगे कविद्रुहदेहीरामःत्परा समुन्मध्यमापितरः सोम्यासाञ्जयीर्यासेनो बन्धुपितरो हेषु इदम् विदृद्धो न ीवेन यस्याविषत्ता देवा नूनम् सुवृजना सु भिक्षु आरम्विद्रेन् सुङ्गविक्रमानन्दविष्णोः गरीरलोजे सुधया सुदस्य भजन्तस्त इहागामिष्टाः गरीरविदरभू नः संयोपोदधात उभूता पितरः सोम्यासोपरिभिष्टेषु निधिषु प्रियेषु ब्रुवन्तु ते वन्तु नो दक्षिणो रिवम् यज्ञे आेन चिह्नायद्वारपुरुषदागरामीनासो अरुणीनामुपस्थेन्धाराशुेव्य पितरस्तश्रवस्व प्रयच्छदोर्जम् दधा ेन पूर्वे पितरः सोम्यासो नो हि सोमभिः एभिर्यमः रवीम् सुषन्नुसद्भिः प्रतिकामवत्तु वेदा त्रिषुर्देहमानाहोविदस्तो मा दष्टासो हर्षैः आज्ञेयायिषु विदत्रेभिदर्वाम् सद्यैकर्यैः पितृभिर्घर्मसद्भिः एोहविरतो विश्वा इन्द्रेण देवैः सरसं आज्ञेयायिसहस्रम् देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ढव्यानि सुलभीनि कृत्वम् देवे ह प्रजादाहवींसि धाभिर्येजम् सुरेकम् विवस्व ये अग्निदग्धा ये अनग्निदग्धावध्ये दिवस्वधया वादयन्ते ते विश्वसूनीतिवेदाम् वेधामसम् दण्डम् कल्पयस्व मैनाम् यदा श्रे मेनम् रीदत्तात् दृभ्याः यदा गच्छाद्य शून्यतिमेतामथा देवानाम् वशनीर्भवाजि ृथिवीम् च धर्मणा अमोभागच्छा शरीरैः अजोभागस्तव शातम्बस्व सुकृता े गच्छताम् जगतेः गुणमाः सुबुधवा स्वाप विष्वादम् यो ब्राह्मणा विवेश अपरियोभिर्जय स्वतंभ्रोर्णष्वीव सा मेधसा चे त्वार्हर सादर्मिधक्षन् पर्यङ्खया ते ृतसोम्याश्च वसो देवपादस्तस्मिन् देवामृतामादयन्ते रव्याद्यम् रहीनोऽपि दूरम् जमराज्ञो गच्छो जातवेदा देवेद्यो हव्यम्बा हो प्रजानन् ेवम् समीवा यो अग्निक्रमव्यवहनपितरेण्यक्षा प्रेतोेभ्यश्च ग्ने समदाहस्तमुनिर्वाहासा शीति हे शीति कावीलादिह्लादि क्या स्वा स्वाग्नि यमस्य मातामृताम् मध्येभ्यः कृत्वम् नामस्वते रण्योः पूराद्वेदस्या न शुर्भवानश्च गोपाः सत्वरीत्विग्रन्थानिर्देवेभ्यः श्रुविदत्रेभ्यः आयुर्विश्तायम् परीपादयित्वा पूजात्वापादप्रपादे पुरस्तात् त्रासे सुकृतो यत्र ते जयस्तत्र त्वा देवः स विजातु ऊषे मा आसा अनुवेदसर्वासो अस्मायेन स्वस्ति वायुच्छन् पुरदे प्रचारन् जनिष्टपूजा प्रवाचे दिवप्रभाचे पृथिव्याः भिप्रियत मे सहस्ते आशमराजनरति प्रधानन् सरस्वतीम् देवयन्दो हवन्दे सरस्वतीमध्वरे दे तायमाने सरस्वतीम् सुकृतो अक्वयन्द सरस्वती दासुषेवार्यन्दाति सरस्वति या सरसम् जिनादस्वदाभिर्देवि पितृभिर्मदन्ति रक्षिना स्मे सरस्वती सहस्रार्घभिलो अत्र भागम् राजस्फोढम् विरमानेषु देहि आपो अस्मान् मातरः सुन्धयन्तु घृतेन लो कृधत्वः हे स्वङ्गे प्रम् प्रवहन् द्विवीरुभ्यूरये द्रश्च स्कन्दप्रथमाम् अनुद्यो निमञ्जयोश्च पूर्वा समानम् यो निमनु सञ्चरन्तम् द्रत्सञ्जो होम्यनु सप्तहोत्राः यस्ते द्रत्सस्कन्ददियस्ते अम् सर्वाभुच्चोतोधिगणायामुपस्थात् यः परित्रास्कन्नो यस्ते हम्बुरवश्चयः परश्रुच अयम् देवो विहस्वधिःसन्तम् सिञ्चतुराधसे पयस्वधीरोषधयः पयस्वन्नामकम् वचाः अमाम् पयस्वधित्वरस्तेन मा सहसुध ृत्यो अनुपरे हिमन्थान्यस्ते स्व इद रोदे वजानात् चक्षुष्वते शृण्वते ते ब्रवी विमानः प्रजामीरिशोबोदवीराय नृत्योः पदम् योपयम् दोचदैतद्राघीयाय प्रधरम् दधाना ूता भवत यज्ञा सह श्रे देवाविमृते रामभृत्रभूद्भद्रादेवो देवा जन्मो अद्य प्राञ्चो रामनृतदेहसा यत्राघीयाय प्रखरम् दधानाः जिमम् जीवेभ्यः परिदि वैधान्नुघातपरो अर्थमेतम् शरम् जीवन्तु शरदः पुरुषेरन्धर्मम् पर्वतेन यथानपूर्वम् भवन्वहृतभिर्यन्ती साधु तथा न पूर्वमपरो जहात्येवासायम् विकल्प येषाम् रोहतायुर्जरसंमृहा न पूर्वम् यतामानाय तिष्ठा विहद्वष्टा सुजनैवा सुयोगा दीर्घमायुः करति जीवसेवः विमानादीरविधवा सुह्रीराञ्जनेन सर्विधा सम्वीसन्तु अनःस्रमो नैव सुरत्राहणयो निमन्त्रे लोकम् गदातुमुपशेषास्मे क्षत्राय वच्चविवयम् सुवीरा विश्वासृथो अभिमातीर्थ उपदर्पपातरम् भूमिः वेदावो रव्यचिवीम् सुसेवायुवदर्दक्षिणात् ऊन्दस्व पृथिविमानिवा ददासोपायनास्मै भव सूपवञ्च मासिताभ्ये रम्भूमभूमिः ञ्जयमाना पृथिवी चिष्टतु सहस्रम् मितौ रन्ताम् ते घ्रातो घृतश्च भवन्तु विश्वाहास्मि सरणास्सन्वचे सम्भ्रामे पृथिवीन् त्वम् लोकम् निदधर्मो अहम् रेढम् एताम् सूनाम् वितरोधारयम् दुरेत्रा यमसाधनादे मिनोतु न्द्रन्द्रभावाचनस्वङ्ग्रणम्ना अपि वाद नुगादास्मान्सि रक्तस्मेधाः रजतम् रजम् पुनरेनानिवर्तय पुनरेनाञ्च इन्द्रयेनानि यच्छ त्वग्निरेणामुपजतु पुनरेतानि वर्तन्तामस्मिन् पुष्यन्तु गोपादौ ैः जगपरायनम् आवर्तनम् निवर्तनम् जो गोपा अपि सम्भुवे जगुदानड्जयानम् जगुदानत्वरायनम् आवर्तनम् निवर्तनमपि गोपानिवर्तता आनीवर्त निवर्तय पुनर्न इन्द्रगादे जीवाभिर्भुनजामहे परीवो विश्वतो दध ऊर्जाघृते न पयसा ये देवाः केतयज्ञियास्ते रय्यान्द्रियन्तु नः आणीवर्तनवर्तयनिवर्तनवर्तय भूम््याश्चतस्र प्रतिशस्त्राभ्यायेनानिवर्तय भद्रम् नामभितयमनाः अग्निवेलुजाम् श्रामित्रम् दुर्धरीतुम् यत्समन् स्वा अरेणे स वर्यन्ति मातुरुधाः माम् बाधा केतुम् वर्धयन्ति दन् हर्यो विशाम् गातुरेतिप्रयदारब्दि गोहन्तारे कविरभ्रन्दीध्यानः द्विषथव्यामानुजस्योर्ध्वस्तस्ता यज्ञे भिन्नान् सद्वरयेति स हिषेवो हरि यज्ञसृष्टि तस्य गातुरेति अग्निम् देवावासीमन्तम् जज्ञासाहम् तु पयुषेग्निम् पूर्वस्य सेवस्य अध्रे सूनुमायुमाहुः न रोदेके चास्मदा विश्वेत्ते भावा स्युः अग्निम् भविषावद्धम् न कृष्णश्वेतोषो यावो अस्य भ्रज्ररिद्रबुदसो लोच स्वान् किरण्यरूपञ्जलीलाजराल दे अग्ने वि मदोमालीरामोर्जो न वादमुदेभिः स्वयो गिरा वक्षत्सु मदीरी जानैषोर्जम् सुक्षयम् विश्वमाभाः आग्निन्नस्वव्यक्तिभिर्होतारम् त्वाहे यज्ञायस्ते न बलिषिषे वि वो मदे शीलम्बावकसो दिषम् विवक्षसे राधसाहोक्षसे धर्मानः सिञ्चतीव कृष्णारूपाण्यजूना वि वोम देवि स्वाधिश्रियोधिषे विवक्षसेम्यायम् सहसमर्त्य नो वाचादये विभो मदे यज्ञेषु चित्रमा भरा विवक्षसे आज्ञर्जातो अथर्वणा विभस्विश्वादिकाव्याः भुवद्भूता विवस्वतो विभो मदे प्रियो विवक्षसे त्वाम् यज्ञेष्वीरते जज्ञे प्रयच्छध्वरे क्षसे त्वाम् यज्ञे श्रुत्विषम् दारूमग्ने विषेधिरेकम् मनुषाभिुक्लम् चेतिष्टमक्षभिर्विवक्षसे आग्ने शुक्रेण सोऽप्रार्थयसे बृहत् अभिक्रन्दम् रयसे विभोमदे गर्भम् रहासि विवक्षसे उभसृद इन्द्रकस्मिन्नध्ये मित्रो न श्रूयसे ऋषीनाम् वायः क्षये क्रीडे इला इहस्रुत इन्द्रो अस्मे अध्यस्तवे वज्रिषीर नेत्रो नयो जनेष्वायश्चक्रेऽन्या ममो यस्पतिः समासो असाम्या ममो ब्रह्मस्य तु धुनिः भर्ता वज्रस्य दृष्टा पिला पुत्रमेव प्रियम् देवो देवस्य त्वन्द्या विद्वादस्या स्वागादिद्रात्मनामहध्यै ययो देवो रमत्यो यन्द्रानम् दोराः ऋच्छदे वाग्मतः परागादिवश्मस्तवत्यम् आ इन्द्रवृक्षते स्वागम् याचामेवष्टम् यद्धमाम् अकरमादस्यो रोन्तु त्वन्द्रस्यामिन्द्रहन्वसर्दासस्य सम्भयन्ना इन्द्रसूरसूरैरुदोदासो गृह्ण रुद्रा देवी मूर्तयो नवम् दक्षोणयो यथा हत्ये चोदयोः गुहायती कवीनाम् विषाम् नक्षत्रतोसाम् मक्षूत इन्द्रदानाम्नसाक्षारेशूरव्रिवः यद्धस्य दम्भयो जातम् विश्वम् शरावधिः मे भो वन्दयम् तासाम् सुम्नेश्रामवज्रिव अस्मे राज इन्द्रसन्धुसत्या विद्यामया साम् भुयो धेनोनान्नवज्रिव प्रदक्षिणे सदः विवाहविभेदितो ब्रह्मा विस्तत्राय स्वो नोश्च रा यजा महेन्द्रम् वज्रदक्षिणम् वरीराम् रथाव्रता भोणा वर्तय मानो विराधतामरे विदैवस्विन्द्रो मघैर्मघाव्रभूत् क्षा पत्यो विलासस्य नाम यदा धिरन्य सुरिभिः आतिष्ठति मघवासनश्रुतयेन्द्रोवाजस्र दीर्घश्रवसस्पतिः ृश्रु नियम् श्रुते वधूदिवातो यो वाचा विवाचो मृतवाचीवाचार तद् अजिलस्य पौंस्यम् गृणे मसिस्तवीम्बावृते स्वाह सोमन्दयेन्द्रविमलापूर्यम्बुतमम् सुगारामे भोजन विनस्य यदा सुन्न गोपाकारामहे माजना सख्यावियौषस्तव चेन्द्रविमलस्य च विषेः विग्ना हि ते प्रिन्देवदामिवस्ते सन्तु सङ्ख्याशिवानी ओ